श्रीमद्भागवत महापुराणम एकादश स्कंधम अथ अध्यायः देवताओं की भगवान से स्वधाम से के लिए प्रार्थना तथा जादुओं को प्रभास क्षेत्र जाने की तैयारी करते देख कर उद्धव का भगवान के पास आना श्री अथ ब्रह्मात्मजैर्देवैप्रजेशैरावृतोऽभ्यगात् भवस्य भूतभव्येषो ययो भूतगुणैर्वितः इन्द्रो मरुद्भिर्भगवानादित्या वसुवोऽश्विनौ ऋभुवोङ्गिरशो रुद्रा विश्वे साध्याश्च देवताः गन्धर्वाप्सरसो नागाः सिद्धचारणगुह्यकाः ऋषयपितरश्चैव स विद्याधरकिन्नराः द्वारकामुपसंज्ञः सर्वे कृष्णादिक्षवः वपुसायेन भगवान्नरलोकमनोरमः यसो वित्ते ने सर्वलोक सर्वलोकमलापहम् तस्यां विभ्राजमानायां समृद्धायां हर्षृथिवीं व्यचक्षततां वितृप्ताक्षा कृष्णमद्भुतदर्शनम् सर्गोद्यानोपगैर्माल्यै शालयन्तो यदुत्तमम् गिरिभिश्चित्र पदार्थाभिः तुष्टपुर्जगदीश्वरम् देवा उचुः नता स्मृते नाथपदारविन्दम् बुद्धिन्द्रियप्राणमनोवचोऽभि यच्चिन्त्यते तर्हृदि भावयुक्तै मोक्षभि कर्ममयो मयोरुपाशात् त्वं मायया तृगुणयात्मनि दुर्विभाव्यं व्यक्तं चिरस्य वसिलुं पसि तद्गुणस्थः नैतैर्भवनानजितकर्मभिरज्यते वै यस्वे सुखे व्यवहिते न वद्यः शुद्धिरॄणां न तु तथेढ्य दुराशयानाम् विद्याश्रुताध्ययनदानतपक्रियाभि सत्त्वात्मना वृषभते यशसि प्रविद्ध तत् श्रद्धया श्रवणसंहृतया यथा स्यात् श्यान्नन्तवाङ्घ्रिरशुभाशय धूमकेतुः क्षेमाय यो मुनभिरार्द्रितोदोह्यमानः यशाश्वतैः सात्वतैः चित सवनश स्वरते क्रमाय यश्चिन्त्यते प्रयतपाणिभिरध्वराग्नौ त्रय्या निरुक्तविधिने सहविर्गृहीत्वा अध्यात्मयोगवृतयोगिभिरात्ममायां जिज्ञासु वि परमभागवतै परिष्ठ पर्युष्टया तव विभो वनमालयेयं संस्पर्धिनी भगवती प्रतिपत्तिवस्त्री य सुप्रणीतममुयार्हणमाददण्डो भूयासदाङ्घ्रिरशुभाशय धूमकेतुः केतुतिविक्रमयुततिपतत्यपां केतु प्रताको यस्ते भयाभयकरो सुरदेव च स्वोः स्वर्गाय साधुसुखले स्वितराय भूमन् पादपुनातु भगवन् भजतामघम्न नस्योत गावयुव यस्य वशे भवन्ति ब्रह्मादयस्तनुभृतो भिरुं मिथुरर्जमाना कालस्य ते प्रकृतिपुरुषयो परस्य शं नस्तनोत् चरणपुरुषोत्तमस्य अस्यासहेतुहृदय ते हृदयस्थितिसंयमानाम् अव्यक्तजीवमहतामपि कालमाहु सोऽयं तृणाभिरखिलपाखिलापतये प्रवृत्तः कालो गभीररयवोत्तमपुरुषस्त्वम त्वत् पुमानसमधिगम्ययया शवीर्यं धत्ते महान्तमिव गर्भममोघवीर्य सोऽयं तयानुगत आत्मन अण्डकोशं हैमं ससजबहिरावरुणैरुपेतम् तत्तस्तु सश्च जगतश्च भवाग्नधीशो जन्मायोत्थगुणवेक्रिययोपनीतान् अर्थाञ्जुसन्नपि भिषे कपते न लिप्तो येने स्वतपरिहृतादपि बिभ्यति स्म मायावलोकलं लवदर्शितभावहारी भ्रूमण्डलप्रहितसौरथमन्त्रसौण्डैः प्रत्नस्तु षोडशसहस्रमनङ्गबाणै यस्येन्द्रियं विमचितुं करणै न बिभ्य दवहा विभ्रुवस्तवामृतकथोदवहा त्रिलोक्याः पादावनेजसरितसमलानि हन्तुम् आनुश्रवं श्रुतिभिरं सिजमङ्गसङ्गये तीर्थद्वयं श्रुतिसदस्तौपस्पृशन्ति